ं गङ्गणपतये नमः ॐ गङ्गणपतय नमः ॐ गङ्गणपतय नमः ॐ नमः शिवा शिवाय नमः ॐ नमः शिवा शि नमः ॐ नमः शिवा शिवाय नमः ॐ नमः शिवा शिवाय नमः ॐ नमः शिवा श श शिवाय नमः